गरुडपुराणम् प्रेतकाण्डम् धर्मकाण्डम् अध्यायम् 49 नैन् गरुड उवाच श्रुदामयादया सिन्धो यज्ञानाजीवसंसृतिः अधुना सनातनम् भगवन्देवदेवेशरणागदवत्सल असारे खोरसंसारे सर्वदुःखमलीमसे शरीरस्ता अनन्ता जीवराशयः जायन्ते च म्रियन्ते च तेषा मन्दो न विद्यते सदा दुःखातुरा एव न सखी विद्यते क्वचिद केनोपायेन मोक्षेश मुच्यन्ते वद मे प्रभो श्रीभगवानुवाच शृणुतार्क्ष्य प्रवश्यामि यन्मान् त्वम् परिपृच्छसि यस्य श्रवणमात्रेण संसारान्मुच्यते नरः अस्ति देवपरब्रह्मस्वरूपो निष्कलशिवः सर्वज्ञः सर्वकर्ता च सर्वेशो निर्मलोऽद्वयः स्वयं ज्योतिरनाद्यन्तो निर्विकारपरात्परः निर्गुणसच्चिदानन्दस्तदं सा जीवसंज्ञका अनाद्यविद्योपहता यथाग्नौ विस्फुलिङ्गकाः देहाद्युपादि सम्भिन्नास्ते कर्मभिरनादिभिः सुखदुःखप्रदैपुण्यपारूपैर्नियन्त्रिताः तत्तज्जादियुतं देहमायुर्भोगञ्च कर्मजम् प्रतिजन्म प्रपद्यन्ते तेषामपि परम् पुनः स सूक्ष्मलिङ्गशरीरमामोक्षादक्षरम् खग स्तावराकृमयश्चाजाः पक्षिणः पशवो नगः धार्मिकास्त्रि दशास्तद्वन्मोक्षिणश्च यथाक्रमम् चतुर्विधशरीराणि धृत्वा मुक्त्वा सहस्रशः सुकृन्मादानवो भूत्वा ज्ञानी चेन्मोक्षमाप्नुयाद चतुरशीतिलक्षेषु शरीरेषु शरीरिणाम् न मानुषम् विनान्यत्र तत्त्वज्ञानम् अत्र जन्मसहस्राणां सहस्रैरपि कोटिभिः कदा चिल्लपदे जन्तुर्मानुष्यम् पुण्यसञ्जयात् सोपानभूतम् मोक्षस्य मानुष्यम् प्राप्य दुर्लभं यस्तार यदि तस्मात् पापतरोऽत्र कः नर प्राप्येतरज्जन्म लब्ध्वा चेन्द्रियसौष्ठवं न वेत्त्यात्महितं यस्तु स भवेद् ब्रह्मकादकः विना देहेन कस्यापि पुरुषार्थो न तस्माद्देहं धनं रक्षेत् साधयेद रक्षेच्च सर्वदात्मानमात्मा स्वभाजनम् रक्षणे यत्नमादिष्टे जीवन्भद्राणि पश्यति पुनर्ग्रामः पुनः क्षेत्र पुनर्वित्तम् पुनर्गृहम् पुनः शुभाशुभम् कर्म सर्वदा बुधैः नेच्छन्ति च पुनस्त्यागमपि कुष्ठादिरोगिणः तद्गोपितं स्याद्धर्मार्थं धर्मो ज्ञानार्थमेव च ज्ञानं तु ध्यानयोगार्थमचिरात्प्रविमुच्यते आत्मैव यदि नात्मानमहीतेभ्यो निवारयेत् सुखयिष्यति इहैव नरकव्याधे चिकित्सां न करोति यः गत्वा निरौषधम् देशं व्याधिम् भक्तिम् करिष्यति व्याक्रीवास्ते जराचायुर्यादिभिन्नखडम्बुवद निघ्नन्दि रिपुवद्रोगास्तस्माच्छ्रेयसमभ्यसेद यावन्नाश्रयदे दुःखं यावन्ना यान्ति चापदः यावन्ेन्द्रियवैकल्यं तावत् श्रेयसमभ्यसेद यावत्तिष्ठति देहोऽयं तावत्तत्त्वं समभ्यसेद सन्दीप्तकोशभवने कूपं खनदि दुर्मदिः कालो न ज्ञायदे नानाकार्यैः सुखं दुःखं जनो हन्त न वेत्ति हिदमात्मनः जातानार्तान् मृतानापद्भष्टान् दृष्ट्वा च दुःखितान् लोको मोहसुरम् पीत्वा न बिभेदि कदाचन सम्पदस्वप्नसम्काशायौवनं कुसुमोपमम् तडिचपलमायुष्यं कस्य स्याज्जनदो धृतिः शतं जीवितमत्यल्पं निद्रालस्यैस्तदर्थ तदर्थकं बाल्यरोगजरा दुःखैरल्पं तदपि निष्फलं प्रारब्धव्यनिरुद्योगी जागर्तव्ये प्रसुप्तकः विश्वस्तश्च भयस्थाने हानरको न हन्यदे तोयफेन समे देहे जीवेना क्रम्य संस्थिते अनित्याप्रयस कथ तिष्ठति निर्भयः अहिदेहिदसञ्ज्ञस्य दा दध्रुवे ध्रुवसंज्ञकः अनर्थे चार्थविज्ञानस्वमर्थं यो न वेत्ति सः पश्यन्नपि प्रस्खलति शृण्वन्नपि न बुद्ध्यदि पठन्नपि न जानाति देवमायाविमोहितः तन्निमज्ज्जगितं गम्भीरे कालसागरे मृत्युरोगजराग्राहैर्न कश्चिदभिबुध्यदे प्रदिक्षणभयं कालः क्षीयमाणो न लक्ष्यदे आमकुम्भैवाम्भस्थो विशीर्णो न विभाव्यते युज्यते वेष्टनं वायोराकाशस्य च खण्डनं ग्रन्थनञ्च तरङ्गाणामास्तनायुषि युज्यते पृथिविदह्यते येन मेरुश्चापि विशीर्यदे शुष्यदे सागरजलं शरीरस्य च का कथा अपत्यं मे कलत्रं मे धनं जल्पन्तमिति मर्त्याजंहन्तिकालभृको बलाद इदम् कृतमिदम् कार्यमिदमन्यत्कृता कृतम् एवमीहासमायुक्तम् कृदान्त कुरु देवश्यम् श्वकार्यमद्य पूर्वीदपूर्वाह्ने चापराह्निकम् न कि मृत्युप्रतीक्षेत कृतम् वाप्यथवा कृतम् ज्वरादर्शितपन्थानम् प्रचण्डव्याधिसैनिकम् अधिष्ठितो मृत्युशत्रुम् त्रातरम् किम् न पश्यति तृष्णासूचीविनिर्भिन्नम् सिकृम् विषय सर्पिषा मृत्युरश्रादि मानवम् बालांश्च यौवनस्थांश्च वृद्धानगर्भगदानपि विषदे मृत्युरेवं भूमिदं जगद स्वदेहमपि जीवोऽयं मुक्त्वा याधियमालयं संबंधकेन हेतुना दुःखमूलं हि संसार सा यस्यास्ति स दुःखितः तस्य त्यागकृतो येन स सुखी नापरक्वचित प्रभवं सर्वदुःखानामालयं सकलापदाम् आश्रयं सर्वपानां संसारं वर्जयेत्क्षणाद लोहदारुमयै पाश्यै पुमान् बद्धो विमुच्यते पुत्र पुत्रदारमयै पाशैर्मुच्यते न कदाचन यावद कुरुदे जन्दु जन्तुसम्बन्धान् मनसप्रियान् तावन्तोऽस्य निखन्यन्दे हृदये शोकशङ्कवः वञ्चिताशेषवित्तैस्तैर्नित्यं लोको विनाशिदः विषयाहारदेहे स्तोन्द्रिय तस्करैः मांसलुब्धो यथा मत्स्यो लोहशङ्कुं न पश्यति सुखलुब्धस्तधा देहि यमवाधां न पश्यति हिताहितं न कुक्षिपूरणनिष्ठाये निष्टायेते नरा नारकाः खगाः निद्रा भीमैधुनाहारा सर्वेषां प्राणिनां समाः ज्ञानवान् मानवप्रोक्तो ज्ञानहीनः पशुस्मृदः प्रभादे मलमूत्राभ्यां शुतृभ्यां मध्यगैरव रात्रौ मदननिद्राभ्यां बाध्यन्ते मूढमानवाः स्वदेहधनधारादिनिरता सर्वजन्तवः जायन्ते च म्रियन्ते जः अन्ताज्ञानमोहिताः तस्मात् सङ्गः सदा त्याज्य सचेत्यक्तुं न महद्भिः सह कर्तव्यः सन्दःसङ्गस्य भेषजम् सत्सङ्गश्च विवेकश्च निर्मलं नयनद्वयम् यस्य नास्ति नरः सोऽन्धः कथं सर्वमानवाः न जानन्ति परं धर्मं वृधा नश्यन्ति दाम्भिकाः किमायाः स परा के जिव्रतचर्यादिसंयुताः अज्ञानसंवृतात्मानः सञ्चरन्ति प्रचारकाः नाममात्रेण सन्धुष्टा कर्मकाण्डरदा नराः मन्त्रोच्चारणहोमाद्यैर्भ्रामिधाक्रदुविस्तरैः एकभुक्तोपवासाद्यैर्नियं का है कायशोषणैः मूढा परोक्षमिच्छन्ति मम माया विमोहिताः देहदण्डनमात्रेण कामुक्तिरविवेकिनां वल्मीक पाडनादेव मृद किन्नुमहोरगः जडाभाराजिनैर्युक्ता दाम्भिकावेशधारिणः भ्रमन्ति ज्ञानवल्लोके भ्रामयन्ति जनानपि संसारजसुखसक्तं ब्रह्मज्ञोऽस्मीदिवादिनं कर्म ब्रह्मो भयभ्रष्टम् त्यजेदं त्यजं यथा गृहारण्यसमालोके गतव्रीडादिगम्बराः चरन्ति गर्दभाद्याश्च विरक्तास्ते भवन्ति किम् मृद्भस्मोद्धूलनादेवमुक्तास्युर्यदि मानवाः मृ भस्मवासि नित्यं श्वास किं मुक्तो भविष्यति तृणपर्णोतकाहारासदं वनवासिनः जम्बूकाकुमृगाद्याश्च तापसात्ते भवन्ति किम् आजन्ममरणान्तश्च गङ्गादितडिनी स्थिताः मण्डूगमस्य प्रमुखा योगिनस्ते भवन्ति किम् पारावदा शिलाहारा कदाचिदपि चादकाः न पिबन्ति महीतोऽयं व्रधिनस्ते भवन्ति किम् कर्मलोकरञ्चनकारकम् मोक्षस्य कारणं साक्षात् तत्त्वज्ञानकगेश्वर षड्सनमहाकूपे पतिता पशक्ख परमार्थं न जानन्ति पशुपाशनियन्त्रिता वेदशास्त्राणवैर्खोरैरुह्यमाना इदस्ततः षडूर्मिनिग्रहग्रस्त स्तिष्ठन्ति हि कुदार्किकाः वेदागमपुराणज्ञपरमार्थम् न व्यत्ययः विडम्बकस्य तस्यैव तत्सर्वम् कागभाषिदम् इदम् ख्यच्छन्दो निबन्धेन काव्यालङ्कारशोभिताः चिन्तया दुःखिता मूढा स्तिष्ठन्ति व्याकुरेन्द्रियाः अन्यथा परमम् जना क्लिश्यन्ति चान्यथा अन्यथा शास्त्रसद्भावो व्याख्याम् कुर्वन्ति चान्यथा कथयन्ति युवन्मनी भावं स्वयं नानुभवन्ति च अहङ्कारस्ता केचिदुपदेशादिवार्जिताः पठन्ति वेदशास्त्राणि बोधयन्ति परस्परं न गन्धम् जानादि नासिका पठन्ति वेदशास्त्राणि दुर्लभो भावबोधकः तत्त्वमात्मस्तमज्ञात्वामूढशास्त्रेषु मुह्यदि गोपकक्षा गदे चागे कूपम् पश्यदि दुर्मदीः संसारमोहनाशाय शाब्दबोधो न हि क्षमः न निवार्देदधिमिरम् कदाचिद्दीपवार्तया प्रज्ञाहीनस्य पठनम् यथान्धस्य च दर्पणम् अथ प्रज्ञावदां शास्त्रम् तत्त्वज्ञानस्य लक्षणम् इदम् ज्ञानमिदम् दिव्यवर्षसहस्राच्च शास्त्रान्तम् नैव गच्छति अनेकानि च शास्त्राणि स्वल्पायुर्विघ्नकोटयः तस्मात् सारम् विजानीया क्षीरम् हंस इवाम्भसि अभ्यस्य वेदशास्त्राणि तत्त्वम् ज्ञात्वाथ बुद्धिमान् पलालमिव धन्यार्थी सर्वशास्त्राणि सन्त्यजेद यथा मृदेन तृप्तस्य नाहारेण प्रयोजनं तत्त्वज्ञस्य तथा तार्क्ष्य न शास्त्रेण प्रयोजनं न वेदाध्ययनान्मुक्तिर्न शास्त्रपठनादपि ज्ञानादेव हि कैवल्यं नान्यथा विनदात्मजः नाश्रमकारणं मुक्तेर्दर्शनानि न कारणं तथैव सर्वकर्माणि ज्ञानमेव हि कारणम् मुक्तिता गुरुवागेका विद्या सर्वा शास्त्रभार शास्त्रभारसहस्रे शुह्येकं सञ्जीवनं परम् अद्वैतं किशिवं प्रोक्तं क्रियया परिवर्जितम् गुरुवक्त्रेण लभ्येदनाधीदागमकोडिभिः आगमोक्तं विवेकोद्धम् द्विधाज्ञानम् प्रचक्षदे शब्दब्रह्मागममयं परं ब्रह्मविवेकजम् अद्वैतम् केचिदिच्छन्ति द्वैतमिच्छन्ति चापरे समं तत्त्वं न द्वैदा द्वैतविवर्जितं द्वे पदे बन्धमोक्षाय न ममेदि ममेति च ममेदि बध्यते जन्तुर्नममेदि प्रमुच्यते तत्कर्म यन्नबन्धाय सा विद्याय विमुक्तिदा आयासाया परं कर्म विद्यान्या शिल्पनैपुणम् यावत् कर्माणि दीप्यन्ते यावत् संसारवासना यावदिन्द्रियजाबल्यम् तावत्तत्त्वकथाकुदः यावद्देहाभिमानश्च मम दा यावदेव हि यावत्प्रयत्नवेगोऽस्ति यावत् सङ्कल्पकल्पना यावन्नो मनसस्थैर्यं न यावच्छास्त्रचिन्तनं यावन्न गुरुकारुण्यं तावत्तत्त्वकथाकुतः तावत्तपोव्रतं तीर्थं जप होमार्चनादिकं वेदशास्त्रागमकथा न विन्दति तस्मात् सर्वप्रयत्नेन सर्वावस्तासु सर्वदा तत्त्वनिष्ठो भवेत्तार्क्ष्य यदी चेन्मोक्षमात्मनः धर्मज्ञानप्रसूनस्य स्वर्गमोक्षफलस्य च तापत्रयादिसन्तप्तच्छायाम् मोक्षतरोश्रयेत तस्मात् ज्ञानेनात्मतत्त्वम् विज्ञेयम् श्रीगुरोर्मुखाद सुखेन मुच्यते जन् दुर्घोरसंसारबन्धनाद तत्त्वज्ञस्यन्तिमम् कृत्यम् शृणु वक्ष्यामि तेऽधुना येन मोक्षमवाप्नो दिब्रह्म निर्वाणसञ्ज्ञकम् अन्तकाले दुपुरुष आगदे गदसाध्वसः चिन्त्यादम् सङ्गशस्त्रेण स्पृहाम् देहेनु याचतम् गृषात् प्रव्राजितो धीरपुण्यतीर्थजलाप्लुदः शुचौ विविक्त आसीनो विधिवत् कल्पिता अभ्यसेन्मनसा शुद्धं त्रिविद् परम् मनो यच्छेज्जिदच्छ्वासो ब्रह्म बीजमविस्मरन् नियच्चद्विषयेभ्योक्षान्मनसा बुद्धिसारधिः मनः कर्मभिराक्षिप्तं शुभार्थे धारये धिया अहम् ब्रह्म परमं वदम् एवं समीक्ष्य चात्मानमात्मन्याधाय निष्कले ओमित्याक्षरम् ब्रह्मव्याहरन् मामनुस्मरन् यप्रयादित्यजन्देहं या स यादि परमां गदिं न यत्र दाम्भिका यान्ति ज्ञानवैराग्यवर्जिताः कथयामि ते निर्माणमोहाजिदसङ्गदोष अध्यात्मनित्या विनिवृत्तकामाः द्वन्द्वैर्विमुहृदा सुखदुःखसंज्ञैर्गच्छन्ध्यमूढा पदमव्ययं तद् ज्ञानह्रदे सत्यजले रागद्वेषमलापहे यस्नादिमानसस्तीर्थे यस्नादिमानसे तीर्थे स वै मोक्षमवाप्नुयाद प्रौढवैराग्यमस्ताय भजते मामनन्यभग पूर्णदृष्टिप्रसन्नात्मा स वै मोक्षमवाप्नुयाद यक्त्वा गृहं च यत्तीर्थे निवसेन्मरणोत्सुकः मुक्तिक्षेत्रेषु म्रियते स वै मोक्षमवाप्नुयात् अयोध्या सप्तैदा मोक्षदायिकाः इति ते कथितम् तार्क्ष्यमोक्षा ताक्ष्यमोक्षधर्मम् सनातनम् ज्ञानवैराग्यसहितम् श्रुत्वा मोक्षमवाप्नुयाद मोक्षम् गच्छन्ति तत्त्वज्ञा धार्मिका स्वर्गतिम् नराः पापिनो दुर्गतिम् यान्ति संस्मरन्ति संसरन्ति कगादयः सुद उवाच स्वप्रस्रोत्तरराद्धान्तमेवम् भगवदो मुखाद श्रुत्वा हृष्टतनुस्तार्क्ष्यो न नाम जगदीश्वरम् सन्देहो मे महन्नष्टो भवद्वाक्यविरोचनाद युत्युक्त्वा विष्णुमा मन्त्र्य सगध पश्यपाश्रमम् सद्यो देहान्तरं यादि यथा यादि विलम्बदः अनयोरुभयोश्चैव न विरोधस्तथैव सर्वमाख्यादवांस्तादश्रुतो भगवतो यथा मारीचोऽपि मुदं लेभे श्रुत्वा वाक्यं रमापदे अपाकृतस्तु सन्देहो ब्राह्मणा भवदा उक्तम् सुपर्णसं न्यन्तु पुराणम् परमाद्भुतम् इदमापहरिस्तार्क्ष्यस्तार्क्ष्यादापतदो भृगुः भृगोर्वसिष्ठसम्प्राप वाम देवस्ततः पुनः पराशरमुनिप्राप तस्माद् व्यासस्तदो प्रोक्तं परं गुह्यम् हरेरिदम् य इदम् शृणुयान्मर्त्यो यो वाप्यभिदधादिज इहात्र च लोके स सर्वत्र सुखमाप्नुयाद व्रचदः संयमन्याम् यद्दुःखमत्र निरूपितम् अस्य श्रवणधपुण्यम् तन्मुक्तो जायते ततः अत्रोक् कृतकर्म पागादिश्रवणाश्च नृणामिह वैराग्यमावहेद्यस्मात्तस्माच्छ्रोतव्यमेव च भजदजितकृषिका कृष्णमेनं मुनीशम् समज निबद यस्माद्गीसुधा सारधारा पृषदमपि यदीयं वरुणरूपम् निपीय श्रुति पुटचुक्लुकेन प्राप्नुयादात्मनैक्यम् व्यास उवाच इति सूतमुखोद्गीर्णाम् सर्वशास्त्रार्थमण्डिताम् वैष्णवीम्बाक्सुधाम् पित्वा ऋषय्यस्तुष्टिमाययुः प्रशशंसुस्तधान्योन्यम् सूदम् सर्वार्थदर्शिनम् प्रसर्षमधुलं प्रापुर्मुनय्य शौनकादयः इति करिवचनानि सुत वाचा ककपदि संशयभेदकानि यानि स मुनिरपि निशम्य शौनकेन्द्रो बहुधरमानयति स्म चात्मनि स्वम् अपूजयं स्ते मुनयस्तदानीमुखादाग्भिर्मुहुरेव सन्योऽसि सूदत्वमिहेत्युदैरयन्वव्यसर्जयं स्तं च निवर्तिते ध्वरे पुराणम् गरुडम् पुण्यम् पवित्रम् पावनाशनम् शृण्वतां कामनापुरं श्रोतव्यं सर्वदैव हि श्रुत्वा दानानि देयानि वाचकायाखिलानि च पूर्वोक् पूर्वोक्त शयनादीनिनान्यदा सफलं भवेद पुराणं पूजयेत् पूर्वं वाचकं तदनन्तरं वस्त्रालङ्कारगोदानाय दक्षिणाभिश्च सादरम् अन्नदानैर्हे मदानैर् अन्नदानैर्हे मदानैर्भमिदानैश्च भूरभ पूजयेद्वाचकं भग्रिया बहुपुण्यबलाचेद शृणुयान्मर्ो यथा परकर्त विहाय यादना घोरा दूतपापो दिव्रजेद ये श्रीकारूे महापुराणे उत्तरखंडे प्रेतक मोक्षोपायनिरूपणं नामैको न ना पञ्चाशत्तमोऽध्यायः इति गारूढे महापुराणे द्वितीयो धर्मकाण्डः समाप्तः